हरि ओम् श्रीसीतारामचन्द्राभ्यं नमः अत श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकाधिकशतमसर्गः श्रीरामस्य विलापः हनुमद् आहृतौषध्या सुषेण प्रयुक्तया लक्ष्मणस्य संज्ञालाभ शक्त्या निपातितम् दृष्ट्वा रावणेन बलीयत लक्ष्मणम् समरेशूरम् शोणितौघपरिपृतम् स दत्त्वा तु मुलं युद्धम् रावणस्य दुरात्मनः विसृजन्नेव बाणोघान् सुषेणमिदमब्रवीत् एष रावणवीर्येण लक्ष्मणः पतितो भुवि सर्पवाच्येष्ट ते वीरो मम शोकम् उदीरयन् शोणिताद्रम् वीरम् प्राणे प्रियतरं मम पश्यतो मम का शक्ति योढुं पर्याकुलात्मनः अयं च समरश्लाघी भ्राता मे शुभ लक्षणः यदि पञ्चवेत्तमापन्न प्राणैर्मे किं सुखेन वा लज्जतीव हि मे वीर्यं भष्यतीव करा धनुः सायका व्यवसीरन्ति दृष्टिर्बाष्पवश्यं गता अवसीदन्ति गात्राणि स्वप्न स्वप्नयाने नृणाम् विव वर्धते तीव्रा मुमुर्छापि च जायते भ्रातरम् निहतम् दृष्ट्वा रावणेन दुरात्मन विटनन्तम् तु दुःखातम् भीहतं भुजम् राघवो भ्रातरम् दृष्ट्वा प्रियं प्राणं दुखे प्राणम् बहिश्चरम् दुःखेन महताविष्टो ध्यानशोकपरायणः परं विषादमापन्नो विललापाकुलेन्द्रियः भ्रातरम् नियतम् दृष्ट्वा लक्ष्मणम् ऋणपांशुषु विजयोऽपि हि मे शूर न प्रियायोपकल्पते अचक्षुर्विषयश्चन्द्रः काम् प्रीतिम् जनयिष्यति किम् युद्धेन किं प्राणै युद्धकार्यम् न विद्यते यत्रायम् निहत शेते रणमूर्धनि लक्ष्मणः यथैव मां वरम् यान्तम् अनुयाति महाद्युतिः अहमप्यनुयास्यामि तथैवेनं यमक्षयम् इष्टबन्धुजनो नित्यम् मांस नित्यमनुवृतः इमामवस्थां गमितो राक्षसे कूटयोधिभिः देशे देचे कलत्राणि देशे देशे च बान्धवा तन्तु देशं यत्र भ्राता सहोदरः किम्नु नु राज्ये दुर्धर्ष लक्ष्मणेन विनामम मम कथं वक्ष्यामहं तम्बाम् सुमित्राम् पुत्रवत्सलाम् उपालम्भम् न शक्ष्यामि सोढुम् दत्तम् सुमित्रया किं नु वक्ष्यामि कौसल्याम् मातरम् किं नु कैकयीम् भरतम् किं नु वक्ष्यामि शत्रुघ्नम् च महाबलम् स तेन वनं यातो विना तेनागतम् कथम् इहैव मरणम् न तु बन्धुविग्रहणम् किं मया दुष्कृतं कर्म कृतम् अन्यत्र जन्मनि येन मे धार्मिको भ्राता नियतैश्चाग्रत स्थित आभ्रातो चूराणां प्रवरं प्रभो एकाके किं न मां परलोकाय गच्छति विलपन्तं च मां किमर्थं नावभाषसे उत्तिष्ठ पश्य किं शेषे दीनं मापश्चक्षुषा शोकार्थस्य प्रमर्थस्य पर्वतेषु वनेषु च विषण्णश्च महाबाहो समाश्वासयिता रामम् एवम् ब्रुवाणं तु शोकव्याकुलितेन्द्रियम् आश्वासयन् सुषेह परमम्बचः त्यजे मां नरशार्दूल बुद्धिं वैक्लव्यकारिणीम् शोकसञ्जननीं भिन्तां तुल्याम् बाणै च मोमुखे नैव पञ्च त्वमापन्नो लक्ष्मणो लक्ष्मीवर्धनः न ह्यस्य विकृतं वक्त्रं न च सुप्रभं च प्रसन्नं च स्य निरीक्षताम् पद्मपत्रतलो हस्तो सुप्रसन्ने च लोचने नैदृशं दृश्यते रूपम् गतासूनां विशाम्पते विषादम् महाकुशावीर स्वप्राणोऽयं मरिन्दम आख्याति तु प्रसुप्तस्य स्वस्थगात्रस्य भूतले सूक्ष्मा संहृदयम् वीर कम्पमानम् मुहुमु मुहु। एवम् उक्त्वा महाप्राज्ञ सुषेणो राघवं वचः समीपस्थम् वाचेदम् हनुमन्तम् महाकपिं सौम्यशीघ्रमितो गत्वा पर्वतं हि महोदयम् पूर्वं तु कथितो योऽसौ वीरदाम्भवता दक्षिणे शिखरे दाताम् महौषधिम् ह्यानय विशल्य कर्णिम् नाम्ना सावर्ण्यकर्णिम् तथा सञ्जीवकर्णिम् वीर सन्धानीम् च महौषधिम् सञ्जीवनाथम् वीरस्य लक्ष्मणस्य स्वयम् त्वमानय इत्येवमुक्तो हनुमान् गत्वा चौषधि पर्वतम् चिन्तामभ्यगमच्छ्रीमान् अजानन्ता महौषधि तस्य बुद्धिः समुत्पन्ना मारुते रमितौ जसः इदमेव गमिष्यामि गृहीत्वा शिखरं गिरे अस्मिन् तु शिखरे दाताम् ओषधिं तां सुखावहं प्रतर्केणावगच्छामि सुषेणो ह्यैवमब्रवीत् अगृह्य यदि गच्छामि विषल्य करणीमहम् कालात्ययेन दोषस्य वैक्लव्यं च महद् भवेत् इति सञ्चिन्त्य हनुमान् गत्वा क्षिप्रम् महाबलः आसाद्य पर्वतश्रेष्ठम् त्रिप्रकम्प्य गिरेशिरः समुत्पाट्य महाबलः गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् स नीलम् तोयपूर्णं न भर्तलात् उत्पपात् गृहीत्वा तु हनुमान् शिखरं गिरे समागम्य महावेग सन्यस्त सा शिखरं गिरे विश्रम्य किञ्चित् हनुमान् सुषेण सुषेणम् इदमब्रवीत् औषधीनावगच्छामि ताहं हरिपुङ्गव तदिदं शिखरम् कृष्णम् गिरे तस्या हृतं एवं कथमयमानं तु प्रशस्य पवनात्मजं सुषेणो वा नरश्रेष्ठो जग्राहोत्पाट्य चौषधि विस्मितास्तु बहुभूस्ते सर्वे वा नरपुङ्गवः दृष्ट्वा तु हनुमत्कर्म सुरेरपि सुदुष्करम् तसौ संशोधयित्वा ताम् औषधिं वा लक्ष्मणस्य ददो नस्तः सुषेन सुमद्युतिः स्वशैल्या सह परवीरः विशल्यो विरुदशीघ्रम् उदतिष्ठन् महीतलात् तमुत्थितं तु हरयो भूतलात्प्रेक्ष्यक्ष् लक्ष्मणं साधु साध्वीति सुप्रेता लक्ष्मणं प्रत्यपूजयन् एहित्यभिद्र च ब्रविद्रामो लक्ष्मणं परवीरः स स्वजे गाढमालिङ्ग्य बाष्पर्याकुलेक्षणः अब्रवी च परिष्वज्य स्वमित्रिं राघव तदा वीरपश्यामि मरणात् पुनरागतं नहि मे जीविते नाथ सीतया च जयेन वा को हि मे जीविते नाथ त्वयि पञ्च त्वमागते इत्येवम्ब्रुवतस्तस्य राघवस्य महात्मनः खिन्नशिथिलया वाचा लक्ष्मणो वा किम् अब्रवीत् तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्य पराक्रम लघु कश्चिद्दिवासत्वो नैवं त्वं वक्तुमर्हसि न हि प्रतिज्ञाम् कुर्वन्ति वितथां सत्यवादिनः लक्षणम् हि महत्वस्य प्रतिज्ञा परिपालनम् नैराश्यम् अपगन्तुम् च नालम् ते मत्कृते नघ वधेन रावणस्याद्य प्रतिज्ञामनुपालय न जीवन् यास्यते शत्रु तव बाणपथम् गतः नर्दतः तीक्ष्णदंशस्य सिंहस्यैव महागजः अहम् तु वधमिच्छामि शीघ्रमस्य दुरात्मनः यावदस्थं न यात्येष कृतकर्मादिवाकरः यदि वधमिच्छसि रावणस्य सङ्ख्ये यदि च कृतां हितवेशति प्रदिन्याम् यदि तव राज्यसुताभिलाष आर्य कुरु च वचो मम शीघ्रमद्य वीर इत्याशैमद्रा रामायणे वाल्मीकियादिकाव्ययुद्धकाण्डे एकाधिकशततमः सर्गः